शुक्लाम् वरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे यन्नत्वा कृतकृत्या स्वन्नमामि गजाननम् दोर्भिर्युक्ता चतुर्भिः हस्तेनैकेन पद्मंसितमपि च शुकम् पुस्तकम् चापरेण भासाकुन्देन्दुशङ्खस्फटिकमणिनिभा भा समाना समाना सा निवसतु वदने सर्वदा सुप्रसन्ना गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुः साक्षात् परम् ब्रह्म तस्मै श्रीगुरवे नमः कूजम् तम् राम रामेति मधुरम् मधुराक्षरम् आरुह्य कविता शाखाम् वन्दे वाल्मीकिकोकिलम् वाल्मीकेर्मुनि सिंहस्य कविता वनचारिणः शृण्वन् राम कथानादम् को न याति पराम् गतिम् यः पिबन् सततम् रामचरितामृतसागरम् अतृप्तस्तम् मुनिम् वन्दे प्राचेत समकल्मषम् गोष्पदीकृत वाराशिम् वशकीकृत राक्षसम् रामायण महामाला रत्नम् वन्दे निलात्मजम् अञ्जनानन्दनम् वीरम् जानकी शोक नाशनम् वन्दे लङ्का भयङ्करम् उल्लङ्घ्य सिन्धोः जनकात्मजायाः आदायते तेनैव ददाह लङ्काम् नमामि तम् प्राञ्जलिराञ्जनेयम् आञ्जनेयमतिपाटलाननम् काञ्चनाद्रिकमनीय विग्रहम् पारिजात तरुमूलवासिनम् भावयामि पवमाननन्दनम् यत्र यत्र रघुनाथ ष्पवारि परिपूर्णलोचनम् मारुतिम् न मत राक्षसान्तकम् मनोजवम् मारुत तुल्यवेगम् जितेन्द्रियम् बुद्धिमताम् वरिष्ठम् वातात्मजम् वानर श्रीरामदूतं मुख्यम् श्रीरामदूतम् शिरसा नमामि यः कर्णाञ्जलि सम्पुटैरह रहः सम्यक् वाल्मीकेर्वदनारविन्द गलितम् रामायणाख्यम् मधू जन्म व्याधिजरा विपत्तिमरणैरत्यन्तसोपद्रवम् संसारम् स विहाय गच्छति पुमान् विष्णोः पदम् शाश्वतम् तदुपगत समास सन्धियोगम् समा रघुवर चरितम् मुनि प्रणीतम् दश शिरसश्च रामसागरगामिनी पुनातु भुवनम् पुण्या रामायण महानदी श्लोकसारसमाकीर्णम् सर्ग वन्दे रामायणार्णवम् वेदवेद्ये वेद्ये दशरथात्मजे वेदः प्राचेद वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितं। अग्रे वाचयति प्रभञ्जनसुते तत्त्वम् मुनिभ्यः परम् व्याख्यान्तम् भरतादिभिः परिवृतम् रामं भजेष्यामलम् वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रा सुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च सुग्रीवश्च विभीषणश्च युवराट् तारासुतोजाम्बवान् मध्ये नीलसरोज कोमल रुचिम् नमोऽस्तु रामाय स लक्ष्मणाय देव्यै च तस्यै जनकात्मजायै नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः